नारायणीयं दशकं 46 मीटर वियोगिनि अयि देवपुरा किल त्वयि स्वयमुत्थानशयेस्तनन्तये परिजृम्भणदो व्यपावृते वदने विश्वमचष्टवल्लवी पुनरप्यथ बालकैः समं त्वयि लीलानिरदे जगत्पदे फलसञ्चयवञ्चनक्रोधा तव मृद्भोजनमोजुरर्भकाः अयिते प्रलया वधौ विभोक्षिदितो यादि समस्तभक्षिणः मृदुपाशनदोरु भवेदि विभि जननीचुकोपसा अयि दुर्विनयात्मकत्वया किमु मृत्सा बलवत्स भक्षिता इति माधृगिरं चिरं विभो वितधाम त्वं प्रदि ज्ञषे हसन् अयि mm. ते विमदिश्चेद्वदनं विदार्यदाम् इदिमाद्र मातृविभर्सितो मुखं विकसत्पद्मनिभं व्यदारयः अपि मृल्लव दर्शनोत्सुकां जननीं तां बहु तर्पयन्निव पृथिवीं निखिलां न केवलं भुवनान्य किलान्यदीदृशः कुहचिद्वनमम्बुधि क्वचित् क्वचिदभ्रं कुहचिद्रसातलं मनुजादनुजा क्वचित् सुरा ददृशे किं न तदा त्वदानने कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् स्वपुरश्च निजार्भकात्मकम् कथिता त्वां न ददर्शसा मुखे विकसद्भुवने मुखोदरे ननु भूयोऽपि तथा विधाननः अनया जगदाम्बदा तनोद धृततत्त्वधियं तदाक्षणं जननीं तां प्रणये न मोहयन् स्तनमम्बदिशेत्युपासजन् भगवन्नद्भुतबालपाहि माम्